गरुडपुराणम् आचारकाण्डम् अध्यायं 51 वन् ब्रह्मो वाच अथातः सम्प्रवक्ष्यामि दानधर्ममनुत्तमम् अर्थानामुचिते पात्रे श्रद्धया प्रतिपादनं दानं तु कथितं भुक्तिमुक्तिफलप्रदम् न्यायेनोपार्जयेद्वित्तम् दानभोगफलं च तद् अध्यापनम् याजनं च वृत्तमाहुप्रतिग्रहम् कुसीदम् कृषिवाणिज्यं क्षत्र वृत्तोधवर्जयेत् यद्यु पात्रेभ्यस्तद्दानं परिकीर्तितम् नित्यं नैमित्तिकं काम्यं विमलं दानमीरिदम् अहन्यहनि यत्किञ्चिद् दीयते नुपकारिणे अनुद्दिश्य फलं तस्माद् ब्राह्मणा यदु नित्यशः यत्तु पापोपशान्त्यै च दीयते विदुषाङ्करे नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् अपत्यविजयैश्वर्यस्वर्गार्थं यत् प्रदीयते दानं तत्काम्यमाख्यातमृषिभिर्धर्मा चिन्तकैः ईश्वरप्रीणनार्थाय ब्रह्मवित् सुप्रदीयते चेदसा सत्त्वयुक्तेन दानं त्वद्विमलं शिवम् इक्षुभिः सन्ततां भूमिम् यवयो यवगोधूमशालिनीं ददातिवेदविदुषे स न भूयोऽभिजायते भूमिदानात् परं दानं न भूतं न भविष्यति विद्यां दत्त्वा ब्राह्मणाय ब्रह्मलोके महीयते दद्या दहरहस्तास्तु श्रद्धया ब्रह्मचारिणे सर्वपापविनिर्मुक्तो ब्रह्मस्थानमवाप्नुयात् वैशाख्यां पौर्णमस्यां तु सप्तपञ्च च उपोष्याभ्यर्चयेद्विद्वान्मधुना तिलसर्पिषा गन्धादिभिः समाभ्यच गन्धादिभिः समभ्यर्च वाचयेद्वा स्वयं वदेद प्रीयतां धर्मराजेदि यथा मनसि वर्तते यावज्जीवं कृतं पापं तत्क्षणादेव नश्यति कृष्णाजिनेतिलान् कृत्वा हिरण्यमधुसर्पिषा ददाति यस्तु विप्राय सर्वं तरदि दुष्कृतं कृथान्नमुदकं चैव वैशाख्यां च विशेषतः निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्य देवयाद दे। द्वादश्यामर्चयेद्विष्णुमुपोष्यार्थप्रणाशनं सर्वपापविनिर्मुक्तो नरो भवति निश्चितं यो हियां देवतामिच्छेत् समाराधयितुं नरः ब्राह्मणान् पूजये दत्नाद् भोजये द्वेषिदः सुरान् पूजयेद्योषिदः सुरान् सन्तानकामः सततं पूजयेद्वै पुरन्तरं ब्रह्म वर्षसकामस्तु धनकामो हुदाशनं कर्मणां सिद्धिकामस्तु पूजयेद्वै विनायकं भोगकामो हि शशिनं बलकामः समीरणं संसारात् प्रयत्नेनार्चयेद्धरिम् अकामः सर्वकामो वा पूजयेत्तु गदाथरम् वायुदृप्तिमाप्नोति सुखमक्षय्यमन्नदः तिलप्रदप्रजामिष्टाम् दीपदश्चक्षुरुत्तमम् भूमिद सर्वमाप्नोति दि दीर्घमायुर्हिरण्यदः गृहदोग्र्याणि रूप्यदो रूपमुत्तमं वस्सोदश्चान्द्र सालोक्यमश्वी सालोक्यमश्वदः अनुदुग्धश्रियं पुष्टां गोधो ब्रध्नस्य विष्टवं ज्ञानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः धान्यदश्रावदं सौख्यं ब्रह्मदो ब्रह्मशाश्वतम् वेदवित्सुदज्ञानं स्वर्गलोके महीयते गवां घासप्रदानेन सर्वपाभैप्रमुच्यते इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः औषधं स्नेहमाहारं रो ददानो ददानोरोगरहितसुखी दीर्घायुरेव च असि पत्रवनमार्गम् क्षुदधारासमन्वितम् तीक्ष्णातपं च तरदिच्छत्रोपानप्रदोनरः यद्यतिष्टतमम् लोके यच्चास्य दयितम् गृहे तत्तद्गुणवदे तदेवाक्षयमिच्छदा अयेन विशुवे चैव सङ्क्रान्त्यादिषु कालेषु दत्तम् भवति चाक्षयम् प्रयागादिषु तीर्थेषु गयां च विशेषतः दानधर्मापरो धर्मो भूतानाम् नेख विद्यते स्वर्गायुर्भूतिकामेन दानं पापोपशान्तये दीयमानम् तु यो मोहाद्गो विप्राग्नि सुरेषु च निवारयति पापात्मा तिर्योनिं व्रजन्नरः यस्तु दुर्भिक्षवेलाया मन्नाद्यं न प्रयच्छति म्रियमाणेषु विप्रेषु ब्रह्म सदुगर्हितः इति श्रीगारूढे महापुराणे आचारकाण्डे दानधर्मनिरूपणं नामयीक पञ्चाशत्तमोऽध्यायः ओ गरुडपुराणम् आचारकाण्डम् अध्यायम् फिफ्टि टु ब्रह्मोवाच अधः परम् प्रवक्ष्यामिप्रायच्चित्तविधिम् द्विजाह ब्रह्महाचसुरापश्चेये जगुरुतल्पगः पञ्चपातकिनस्त्वेदे तत् संयोगी च पञ्चमः उपपानि गोहत्या प्रभृतीनि सुरा जगुः ब्रह्म द्वादशाब्दानि कुडीं कृत्वा वने वसेद कुर्याधनशनं वा ध भृगोः पतनमेव च ज्वलन्तं वा विषेदग्निं जलं वा प्रविशेत् स्वयं ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान् परित्यजेद दत्त्वा चान्नं च विदुषे ब्रह्महत्यां व्यपोहति अश्वमेधावभृतके स्नात्वा वा द्विजः सर्वस्वं वा वेद विदे ब्राह्मणाय प्रदापयेद सरस्वत्यास्तरङ्गिण्या सङ्गमे लोकविश्रुदे शुद्धे त्रिषणवस्नातस्त्रि रात्रोपोषितो द्विजः सेदुबन्धे नरस्नात्वा मुच्यते ब्रह्महत्यया कपालमोचने स्नात्वा वाराणस्याम् तथैव सुरापस्तु सुराम् पीत्वा अग्निवर्णान् सुवर्णस्तेयि मुक्तस्यान् मुत्सलेन हदो नृपैः क्षीरवासाद्विजोरण्ये चरिद्ब्रह्म हणव्रतम् गुरुभार्यार्थं समारुह्य ब्राह्मणः काममोहितः अव गोह्ये स्त्रियं तत्ताम् दीप्ताम् कार्ष्णायसीं कृताम् गुवङ्गनागामिनश्च चरेयुर्ब्रह्महाव्रतम् चान्द्रायणानि वा कुर्यात् पञ्चचत्वारि वा पुनः पतितेन ज संसर्गम् गुरुदे यस्तु वै द्विजः स तत्पा पनोदार्थम् तस्यैव व्रतमाचरेद तप्तकृच्छ्रम् चरे, चरे द्वाधसंवत्सरमदन्ध्रिदः सर्वस्वदानं विधिवत् सर्वपापविशोधनं चान्द्रायणं चा विधिना कृतं चैवादिकृत्रकं पुण्यक्षेत्रे गयादौ च गमनं पापनाशनम् अमावास्यां तिथिं प्राप्य यः समाराधयेद्भवं ब्राह्मणान् भोजयित्वा तु सर्वपापायै प्रमुच्य कृष्णपक्षे समाहितः यमाय धर्मराजाय मृत्यवेचान्दकाय च वैवस्वताय कालाय सर्वभूतक्षयाय च प्रत्येकम् तिलसं यौकृतान् दद्यात् सप्तजलाञ्जलीन् स्नात्वा नद्याम् तु पूर्वाह्नेमुच्यते सर्वपादकैः ब्रह्मचर्यमधशय्यामुपवासं द्विजार्चनम् व्रते श्वेदेषु गुर्विदशान्तः संयतमानसः पष्ट्यामुपोषितो देवं शुक्लपक्षे समाहितः सप्तम्यामर्चयेद्वानुम् उच्यते सर्वपादकैः एकादश्यां निरहारसमभ्यर्चजनार्दनं त्वादश्यां शुक्लपक्षस्य महापाभैप्रमुच्यते तपोजपस्तीर्थसेवादेवब्राह्मणपूजनम् ग्रहणादिषु कालेषु महापादकनाशनम् यत् सर्वपापयुक्तोऽपि पुण्यतीर्थेषु मानवः नियमे न त्यजेत् सर्वपादकैः ब्रह्मघ्नम् वा कृदघ्नं वा महापादकदूषितं भर्तारमुद्धरे प्रविष्टा सह पतिव्रता तु या नारी भर्तु शुश्रूषणोत्सुका न तस्या विद्यते पापमिह लोके परत्र च तथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता दा पत्नी दाशरथेर्देवी विजिज्ञे राक्षसेश्वरं फल्गुतीर्थादिषु लभेद इत्याह भगवान् विष्णुः पुरा मम यदव्रताः यदि श्रीगारूडे महापुराणे आचारकाण्डे प्रायश्चित्तनिरूपणम् नाम द्विपञ्चाशत्तमोऽध्यायः ओम् अध्यायम् 53 सूद सूत उवाच एवं ब्रह्मा ब्रवी हरे ब्रवीच्छ्रुत्वा हरेरष्टनिधिंस्तथा तत्र पद्ममहापद्मौ तथा मकरकृत् मकरकच्छपौ मुकुन्द कुन्दौ नीलश्च शङ्खश्चैव वरोनिधिः सत्यामृद्धौ भवन्त्येदे स्वरूपं कथयाम्यस्तम् पद्मेन लक्षितश्चैव सात्विको जायते नरः दाक्षण्यसारपुरुषसुवर्णादिकसङ्क्रमम् रूप्यादि कुर्या दद्या तु यदि देवादि यज्वनं महापद्माङ्कितो धनाद्यं धार्मिकाय निधिपद्ममहापद्मौ सात्विकौ पुरुषौ स्मृतौ मकरेणाङ्गिदघट्गबाणकुन्दादि सङ्ग्रही दद्याश्रुताय मैत्रीं च यादि नित्यं च राजभिः द्रव्यार्थं शत्रूणां नाशं सङ्ग्रामे चापि संव्रजेद मकरकच्छपश्चैव तामसौ दुनिधि स्मृतौ कच्छपि विश्वसेनैव न भुङ्क्ते न निधानमुर्व्याम् कुरुदे निधि सोऽप्येकपूरुषः राजसेन मुकुन्देन लक्षिता राज्य सङ्ग्रही भुक्तभोगो गायनेभ्यो दद्या द्वेष्यादिकासिच्चु दद्या द्वेष्यादिकासु च स्तुतप्रीदो भवति वै बहुभार्या भवन्ति च पूर्वमित्रेषु शैथिल्यम् प्रीतिमन्यै करोति च नीलेन चाङ्गितः सत्त्वतेजसा संयुधो भवेद वस्त्रधान्यादिसङ्ग्राही तडागादिकरोति च त्रिपूरुषो निधिष्ठैव आम्रारामादिकारयेद एकस्य स्यान्निधि शङ्खस्वयं भुङ्कृते धनादिकं कदन्नभुपरिजनो न च शोभनवस्त्रधृक स्वपोषणपरशङ्गी दद्यात् परनरे वृद्धा। वृथा मिश्रावलोकनान्मिश्रस्वभावफलदायिनः निधीनां रूपमुक्तं तु हरिणाभिहरादिगे हरेर्भुवन शादि धोवाच तधावदे वदे यदि श्रीकारूडे महापुराणे आचारकाण्डे नवनिधिवर्णनम् नाम त्रिपञ्चाशत्तमोऽध्यायः ओम् अध्यायम् फिफ्टि फोर् हरिरुवाच अग्नेध्रश्चाग्निबाहुश्च अग्ने वपुष्मान्ध्युदिमांस्तथा मेधा मेधातिथिर्भव्यशपदपुत्र एव च ज्योतिष्मान्दशमो जातपुत्रा प्रियव्रदाद प्रियव्रताद मेधाग्निबाहुपुत्रास्तुत्रयो योगपरायणाः जातिस्मरामहाभागा नैराज्याय मनो ददुः विभज्य सप्तद्वीपानि सप्तानां प्रददौ नृपः योजनानाम् प्रमाणेन पञ्चाशत्कोटिराप्लुधा जलोपरि महीया सरिज्जले सरिजले जम्बूप्लक्षा ह्वयौ द्वीपौ शाल्मलश्चापरोहर कुशक्रौञ्चस्तथा शाकपुष्करश्चैव सप्तमः एते द्वीपा समुद्रैस्तु सतसप्तभिरावृताः लवणेक्षु सुरासर्पिर्दाधि दुग्धजलै समम् द्वीपात्तु द्विगुणो द्वीपसमुद्रश्च वृषध्वजः जम्बुद्वीपे स्थितो मेरुर्लक्षयोजनविस्तृदः चतुरशीति सहस्रैर्योजनैर्वस्य चोच्छ्रयः प्रविष्टषोडशाधस्तद्वं त्रिंशन् मूर्ध्नि विस्तृतः अधषोडशसाहस्रः कर्णिकाकारसंस्थितः हिमवन् हेमकूटश्च निषधश्चास्य दक्षिणे नीलश्वेतश्च शृङ्गे उत्तरे वर्षपर्वताः प्लक्षादिषु नरारुद्रये वसन्ति सनातनाः शङ्कराधनतेष्वस्ति युगावस्था कथञ्चन जम्बूद्वीपेश्वरापुत्रा ह्यग्रीध्नादभवन्नव नाभिः किम् पुरुषश्चैव हरिवर्षमिलावृदः रम्यो हिरण्मयाख्यश्च केतुमालो नृपस्थेभ्यस्तत्संज्ञान् कण्टकान् ददौ नाभेस्तु मेरुदेव्यान्तु पुत्रो भूदृशभोहर तत्पुत्रो भरदो नाम शालग्रामे स्थितो पुत्रस्तैजसो भवद इन्द्रव्युम्नश्च तत्पुत्रपरमेष्टि तदस्मृदः प्रदिहारश्च तत्पुत्र प्रतिहर्ता तदात्मजः सूतस्तस्मादद्धैजादप्रतारस्तत्सुधो विभुः प्रभुश्च तत्सुधो गयस्मृदः नरो गजस्य तनयस्तत्पुत्रो भूद्विराडगदः त्वष्टा त्वष्टुश्च विरजा रजस्तस्याप्यभूत्सुधः शद जिद्रजसस्तस्य विश्वज्योतिःसुद स्मृदः इति श्रीगारूडे महापुराणे आचार्यकाण्डे भुवनकोशवर्णनोपयोगिप्रियव्रतवंशनिरूपणं नाम चतु पञ्चाशत्तमोऽध्यायः ओम् अध्यायम् फिफ्टि फैव् हरिरुवाच मध्ये त्विलावृतो वर्षो भद्राश्वपूर्वदोद्भुतः पूर्वदक्षिणदो वर्षो हिरण्वान् वृषभद्वच तद पुरुषो वर्षो मेरोर्दक्षिणदस्मृदः भारदो दक्षिणे प्रोक्तो हरिर्दक्षिणपश्चिमे पश्चिमे केतुमालश्च रम्यकपश्चिमोत्तरे उत्तरे च कुरो वर्षकल्पवृक्षसमावृतः सिद्धिस्वाभाविकी रुद्रवर्जयित्वा तु भारतम् इन्द्रद्यूप कशेरुमां स्ताम्रवर्णो गभिस्त्रिमान् गभस्थितमान् नागद्वीपकडाहश्च सिंहलो वारुणस्तदा अयं तु नमवस्तेषान्द्वीपसागरसमृदः पूर्वे किरातास्तस्यास्ते पश्चिमे यवनास्थिदाः अन्ध्रा दक्षिणदौरुद्र तुरुष्कास्त्वपि चोत्तरे ब्राह्मणाः क्षत्रिया महेन्द्रोमलयसख्यशुक्तिमान् ऋक्षपर्वतः विन्द्यश्च पारियात्रश्च सप्त्वात्र कुलपर्वदाः वेदस्मृतिर्नर्मदा च वरदा सुरसा शिव पापीपयोष्णीसरयू कवेरी गोमदी तथा गोदावरीभिमरधी कृष्णवेणी महानदी तेतुमाला ताम्रवर्णो चन्द्रभागा सरस्वती ऋषिकुल्या च कावेरी मृत्तगङ्गा पयस्विनी विदर्भा च ददृश्चनध्यपापहरा शुभाः आसांपि पिबन्दिसलिलम् जनाः पाञ्जाला कुरवो मत्स्या यौधेया सपटश्चरः कुन्तयशूरसेनश्च मध्यदेश जना स्मृताः वृषध्वज जनाः पात्मा सुदमागतचेदयः का शयश्च विदेहाश्च पूर्वस्याम् कोशलास्तथा कलिङ्गभङ्गपुण्ड्राङ्गा वैदर्भामूलकास्तथा विन्द्यान्तर्निलयादेश पूर्वदक्षिणदस्मृताः पुलन्दाश्मकजिमोदनयराष्ट्रनिवासिनः कर्णाडकम्बोज कणा दक्षिणापथवासिनः अम्बष्टद्रविडालाढा कम्बोजा स्त्रिमुखाशपः आनर्तवासिनश्चैव ज्ञेया यक्षिणपश्चिमे त्रिराज्यसैन्धवाम्लेच्छा नास्ति कायवनस्तथा पश्चिमेन ज्ञेया माधुरा नैषधैः माद्र गांधार माद्रगान्धारबाह्लिकाः हिमाचलालयाम्लेच्छ उदीचीं दिशमाश्रिताः त्रिकर्तनीलकोलादब्रह्मपुत्राः सडङ्कणाः अभिशाः स काश्मीरा उदपर्वेण कीर्तिताः इति श्रीधरूडे महापुराणे आचार्यकाण्डे भुवनकोशवर्णनम् नाम पञ्चपञ्चाशत्तमोऽध्यायः ओरिरुवाच सप्तमेधातिथे पुत्रा प्लक्षद्वीपेश्वरस्य च ज्येष्ठशान्दभवो नाम शिशिरस्तदन्तरः सुखोदयस्तथा नन्दः शिवः क्षेमक एव च ध्रुवश्च सप्तमस्तेषाम् प्लक्षद्वीपेश्वरा हिते गोमेदश्चैव चन्द्रश्च नारदो दुन्दुभिस्तथा अनुतप्ता शिखि चैव विपाशात्रिदिवा क्रमोः अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः वपुष्मान् शाल्मलस्यस्तत्सुधा वर्षनामकाः श्वयेतो हरितश्चैव जीमूदोरोहितस्तथा वैद्युतो मानसश्चैव सप्रभश्चाप सप्रशाच्च सप्तमः कुमुदश्चोन्नतो द्रोणो महिषोधबलाहकः क्रौंस कगुत्मा ह्ये देवै गिरयः सजितस्त्विमाह योनितो या विधृतिसप्तमि तासां स्मृदा पापप्रशान्तिदाः ज्योतिष्मदक्कुशद्वीपे सप्तपुत्रा शृणुष्वदन् उद्भितो वेणुमांश्चैव द्वैरधो लम्बनो धृतिः प्रभाकरोधकपिलस्तन्नामा वर्षपद्धतिः विद्रुमो हेमशैलश्च द्विदिमान् पुष्पवांस्तथा कुशेशयो हरिश्चैव सप्तमो मन्दराचलः भूतपावा शिवा चैव पवित्रा विद्युदभ्रामही चान्य सर्वपापहरास्त्विमाः प्रञ्जद्वीपे द्वितिमद्धपुत्राः सप्तमहात्मनः कुशलो मन्दकश्चोष्णपीपरोऽन्धकारकः मुनिश्च दुन्दुभिश्चैव सप्तैदेतत्सुदाहर क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः दिवावृत्पञ्चमश्चान्यो दुन्दुभिः पुण्डरीकवान् गौरी कुमुद्वदी वर्षनिम्नगाः शाकद्वीपेश्वराद्भव्यात् सप्तपुत्रा प्रजज्ञिरे जलश्च कुमारश्च सुकुमारोणीबकः कुसुमादः समोदार्किः सप्तमश्च महाद्रुमः सुकुमारी कुमारी च नलिनी धेनुकाजया इक्षुश्च वेणुका चैव गभस्ती शबलात् पुष्करे शमहावीरश्च दादगिः अभूद्वर्षद्वयम् चैव मानसोत्तरपर्वदः योजनानाम् सहस्राणि ऊर्ध्वम् पञ्चाशदुच्छ्रितः तावच्चैव विस्तीर्ण सर्वदपरिमण्डलः स्वादूतकेनोदधिना पुष्करपरिवेष्टितः स्वादूतकस्य पुरदो दृश्यते लोकसंस्थितिः द्विगुणाकाञ्चिनी भूमि सर्वजन्तुविवर्जिता लोका लोकस्ततः शैलो यो जनायुधा विस्तृतः तमसपर्वतो व्याप्तस्तमोऽप्यण्ठकदासदः इति श्रीगारूडे महापुराणे पूर्वखण्डे प्रथमां शाख्ये आचार्यकाण्डे भुवनकोषवर्णनम् नाम षट्पञ्चाशत्तमोऽध्यायः ओम् अध्यायम् ओम। फिफ्टि सेवेन् सहस्राणि सप्ततिस्तुसहस्राणि भूम्युच्छ्रायोऽपि दशसाहस्रमे दशसाहस्रमेकैकम् पातालम् वृषभध्वज अदलम् वितलम् चैव नितलम् च गभस्तिमद महाख्यम् सुतलम् चाग्रयम् पादालम् चापि सप्तमम् कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चना भूयस्तत्र दैदेया वसन्ति ज रौद्रे दुपुष्करद्वीपे नरकाः सन्दिताञ्छृणु रौरवस्सूकरो रोद्धस्तालो विनशनस्तद्धा महाज्वालस्तप्तकुम्भो लवणोऽधिविमोहिदः रुधिराख्यो वैतरणि कृमिष्यकृमिभो जनः असि पत्रवनकृष्णो नानाभक्षश्च दारुणः तथा पूयवः वह पापो वह्निज्वालस्त्वधः शिराः शम्भ्यकृष्णसूत्रश्च पापि नष्टेषु पच्यन्ते विषशस्त्राग्निदायिनः उपर्युपरि वैलोका रुद्रभूदादयस्थिताः वारिवह्न्यनिलाकाश्ययुर्वृदम् भूदादिना चतत, तद तदण्डम् महदा रुद्रप्रधानेन च वेष्टितम् अण्डम् दशगुणम् व्याप्तम् नारायणस्थितः इति गारूढे महापुराणे आचार्यकाण्डे भुवनकोशगतापातलनरकादिनिरूपणम् नाम सप्तपञ्चाशत्तमोऽध्यायः ओम् अध्यायम् फिफ्टि एय्ट् वक्षे वक्ष्ये प्रमाणसंस्थाने सूर्यादीनां शृणुष्वमे यो जनानाम् सहस्राणि भास्करस्य रथो नव ईशादण्डस्तथैवास्यद्विगुणो वृषभध्व च सार्धकोडिस्तथा सप्त नियुतान्यधिकानि च योजनानां तु तस्याक्षस्तत्र चक्रम् प्रतिष्ठितम् त्रिनाभिमतिपञ्चारे षण्मिन्यक्षयात्मके संवत्सरमये कृष्णम् कालचक्रम् प्रतिष्ठितं चत्वारिंशत्सहस्राणिद्वितीयोक्षो विवस्वतः पञ्चान्यानि तु सार्धानि स्यन्दनस्य वृषध्वज अक्षप्रमाणमुभयोः प्रमाणं तु युगार्धयोः ह्रस्वोक्षस्तद्युगार्धेन ध्रुवाधारे रथस्य वै द्विदीयेक्षु तु तत् द्वितीयेक्षेतु तच्चक्रं संस्थितं मानसा चले गायत्री स बृसत्युष्णि जगदी तृष्टुभेन च अनुष्टुपङ्क्तिरित्युक्ताश्चन्दांसि हरयो रवेः दादा क्रदुस्तला चैव पुलस्त्यो वासु रथकृद्घ्रामणिर्हेदिस्तुम्बुरुश्चैत्रमासगे अर्यमापुलहश्चैव रथौ जाःपुञ्जिकस्तला प्रहेधिकच्छीरश्च नारदश्चैव माधवे मित्रोत्रिस्तक्षको रक्षपौरुषेयोधमेनका आहारथस्वनश्चैव ज्येष्ठे भानो रथे स्थिताः वरुणो वसिष्ठो रम्भा सहजन्या कुहुर्बुधः रथचित्रस्तथा शुक्रो वसन्ध्या षाढ संज्ञे इन्द्रो विश्वा वसुस्तोत्र येलापत्रस्तथाङ्गिरः प्रम्लो चा जनभस्येदे सर्पाश्चार्के दु सन्धि वै विभस्वानुग्रसेनश्च भाद्रपदे तथा पूषा च सुरुचीर्धादा गौतमोधनञ्जयः सुषेणोऽन्यो धृदाची च वसन्ध्याश्वयुजे रवौ विश्वावसुर्भरद्वाजः पर्जन्यैरावतौ तदा विश्वाची सनचिच्चर्तिके चाधिचकारिणः अंशुश्च काश्यपस्तार्क्ष्यो महा पद्मस्तधोर्वशी चित्रसेनस्तथा विद्युन्मार्गशीर्षाधिकारिणः क्रदुर्भगस्तधोर्नायुस्पूर्ज कर्कोटकस्तथा अरिष्टनेमिश्चैवन्या पूर्वचित्तिवर्हात्सदाः पौषमासेवसन्ध्येदे सप्तभास्करमण्डले त्वष्टाधजमदग्निश्च कम्बलोधतिलोत्तमा ब्रह्मा धृतराष्ट्रश्च सप्तमः माघमासेव सन्ध्येदे सप्त भास्करमण्डले विष्णुरश्वधरोरम्भा सूर्यवार्चाश्च सत्यजिद विश्वामित्रस्तथा रक्षो यज्ञाभेदो हि फाल्गुने सवितुर्मण्डले ब्रह्मन्विष्णुशक्रिपृंहिताः स्तुवन्ति मुनय सूर्यं गन्धर्वैर्गोयते पुरः नृत्यन्तोप्सरसो यान्ति सूर्यस्यानुनिशाचराः वहन्तिपन्नकायक्षैक्रियतेभिषु सङ्ग्रहः बालकिल्यास्तथवैनम् परिवार्य समासदे रद्धस्त्रिचक्रसोमस्य कुन्ताभास्तस्य वाजिनः वामदक्षिणदो युक्ता दशतेन चरत्यः सौ वार्यग्रनिद्रव्यः सम्भूतो रथश्चन्द्रसुतस्य च पिशङ्गे स्तुरघैर्युक्तसोष्टाभिर्वायुवेगिभिः स सा वरूधसानुकर्षो युक्तो भूमि भवैर्हयैः सोपासङ्गपदाकस्तु शुक्रस्याभिरथो महान् रथो भूमिसुतस्याभितप्तकाञ्जनसन्निभः अष्टाश्वकाञ्जन श्रीमान् भौमस्याभिरथो महान् पद्मरागारुणैरश्वैः संयुक्तो वह्निसम्भवैः अष्टाभिपाण्डरैर्युक्तैर्वाजिभि काञ्चने रथेष् ष्टम् स्तिष्ठदिवर्षम् वैराश्यौ राश्यौ बृहस्पतिः आकाशसम्भवैरश्वै शवलै स्यन्दनम् युधम् वहन्त्याविरतं शिव तथा केतुरथस्याश्वा अष्टौ देवादरं हसः पलालधूमवर्णाभालाक्षारः सनिभारुणः द्वीपनद्यद्रुदन्वन्दो भुवनानि हरेस्तनुः इति श्रीगारुडे महापुराणे आचारकाण्डे भुवनकोशनिरूपणम् नामाष्ट पञ्चाशत्तमोऽध्यायः ओ अध्यायम् 59 नैन् अध ज्योतिश्शास्त्रम् सुत उवाच ज्योतिश्चक्रम्भुवो मानमुक्त्वा प्रोवाच केशवः चतुर्लक्षम् ज्योतिषस्य सारमुद्राय सर्वदः हरिरुवाच कृत्तिकास्त्वग्निदेवत्याोहिण्यो ब्रह्मणस्मृताः इल्वला सोमदेवत्या रौद्रम् चार्द्रमुदाहृदम् पुनर्वसुस्तदादित्यस्तिष्यश्च गुरुदैवतः अश्लेषा सर्पदेवत्यामकाश्च पितृदेवताः भाग्याश्च पूर्व फल्गुण्य अर्यमा च तथोत्तरः सावित्रश्च तथा हस्ता चित्रा त्वष्टा प्रकीर्तितः वायुदेवत्या नक्षत्रम् परिकीर्तितम् इन्द्राग्निदेवता प्रोक्ता विशाखा वृषभध्वज मैत्रमृक्षमनुराधा ज्येष्ठा शाक्रम् प्रकीर्तितम् तथा निरुदिदेवत्यो मूलस्तज्ज्ञैरुदाहृदः अप्यास्त्वा षाढपूर्वास्तु उत्तरा वैश्वदेवताः ब्राह्मश्चैवाभिजित् प्रोक्तश्रवणा वैष्णवस्मृतः वासवस्तुतधारिक्षं धनिष्ठा प्रोच्यते बुधैः तथा शतभिषप्रोक्तं नक्षत्रं वारुणं शिव आजम्भाद्रपदपूर्वा अहिर्बृध्नस्तथोत्तर पौष्णं च रेवदि वृक्षमश्वयुक्चाश्व दैवतम् भरण्यर्क्षम् तथा याम्यम् वृक्षदेवताः ब्रह्माणि संस्थिता पूर्वे प्रीतपन्नवमीतिथौ माहेश्वरी चोत्तरे चद्वितीयादशामी पञ्चम्याम् च त्रयोदश्याम् वाराही दक्षिणे स्थिता षष्ट्याम् चैव चतुर्दश्यामिन्द्राणी पश्चिमे स्थिता सप्तम्याम् पौर्णमास्याम् च च चामुण्डा वायुगोचरे अष्टम्याम् मावास्ययोगे महालक्ष्मीश गोचरे एकादश्याम् तृतीयायामग्निकोणे तु वैष्णवी द्वादश्याम् च च चतुर्भ्यां कौमारी नैहृदे तथा योगिनी सम्मुखेनैव गमनादिन कारयेत् अश्विनी मैत्ररेवत्यो मृगमूलपुनर्वसु पुष्याहस्ता तथा ज्येष्ठा प्रस्थाने श्रेष्ठमुच्यते हस्तादिपञ्चरिक्षाणि उत्तरात्रयमेव च अश्विनी रोहिणी पुष्या धनिष्टा च पुनर्वसु वस्त्रप्रावरणे श्रेष्ठो नक्षत्राणाम् गणस्मृतः कृत्तिका भरण्यश्लेषामखामूलविशाखयोः त्रीणिपूर्वा तथा चैव अधो वक्राप्रकीर्तिताः येषु वापि तदा गादिकूपभूमितृणानि च देवाकारस्य खननं निनखननं तथा गणितं ज्योतिषारम्भम् खनिबिलप्रवेशनम् कुर्या दधो गदान्येव अन्यानि जगृषध्वज रेवती चाश्विनी चित्रा स्वादिहस्ता पुनर्वसुः अनुराधा मृगज्येष्टा एते पार्श्वमुखा स्मृताः बीजानाम् वपनम् कुर्याद्गमनागमनादिकम् चक्रयन्त्ररथानाम् च नावादीनाम् प्रवाहणम् पार्श्वेषु यानि कर्माणि कुर्यादेतेषु तान्यपि रोहिण्यार्द्राम् तथा पुष्या धनिष्ठा चोत्तरात्रयम् वारुणम् श्रवणम् चैव नवचोर्ध्वमुखाः स्मृताः येशु राज्याभिषेकं च पट्टबन्धं च कारयेत् ऊर्ध्वमुख्यान्युच्छ्रितानि सर्वाण्येतेषु कारयेद चतुर्थी च शुभषष्टी अष्टमी नवमी तथा अमावास्या पूर्णिमा च तद्वादशी च चतुर्दशी अशुक्ला प्रदीपश्रेष्ठा द्वितीया चन्द्रसूनुना तृतीया भूमिपुत्रेण सप्तमी सोमपुत्रेण अष्टमी कुजभास्करौ नवमी चन्द्र वारेण दशमी द्वगुरौ शुभा एकादश्या गुरुशुक्रौ द्वादश्यां च पुनर्बुधः त्रयोदशी शुक्रभौमौ शनौ श्रेष्ठा चतुर्दशी पौर्णमास्याप्यमावास्या श्रेष्ठा स्याच्च बृहस्पतौ द्वादशीं दहदे भानुशी चैकादशीं दधेद कुजोदेकच्च दशमीं नवमीं च बुधो दहेद अष्टमीं दहदे जीवसप्तमीं भार्गवो दधेद सूर्यपुत्रो दहेत् षष्ठीं गमनाद्यासु नास्ति वै चतुर्दश्यष्टमीषु च बुधवारे प्रस्थानं दूरधपरिवर्जयेद मेषे कर्कटके षष्ठी कन्यायां मिथुनेष्टमी वृषे कुम्भे चतुर्थो चद्वादशी मकरे तुले दशमी वृच्छिके सिंहे धनुर्मोने चतुर्दशी यदा दग्धानगन्तव्यम् पीडाधिकिलमानवैः विशाखात्रयमादित्ये पूर्वाषाढात्रये शशी धनिष्ठात्रयं भौमे बुधे वैरेवदीत्रयं रोहिण्यादित्रयं जीवे शुक्रे पुष्यात्रयं शिव शनिवारे वर्जये च उत्तरा फल्गुनीत्रयम् येषु योगेषु चोत्पादमृत्युरोगाधिकम् भवेद मूलेऽर्कश्रवणे चन्द्रप्रोष्टपद्युत्तरे कुजः कृत्तिकासु बुधश्चैव गुरौरुद्रपुनर्वसुः पूर्वफल्गुनी शुक्रे जस्वादिश्चैव शनैश्वरे येदै चामृतयोगास्युत्सर्वकार्यप्रसाधकाः सर्वादिस्तु ज्ञेयकालकालविशारदैः ये कीकृत्याक्षरान्मात्रम् नाम्नोऽस्त्री पुंसयोस्त्रिभिः भागे द्विशेष्ये स्त्रीनाशपुंसस्यादेगशून्ययोः विष्कम्भे कडिकाः पञ्चशूले सप्तप्रकीर्तिताः षड्घण्टे चाधिघण्टे जनव्याख्यादवज्रयोः व्यदीपादे जपदिके वैधृते जदिने दिने ये दै मृत्युयुदाह्येषु सर्वकर्माणि वर्जयेद हस्तेऽर्कश्च गुरुः पुष्ये अनुराधा बुधे शुभा रोहिणी च शनौ श्रेष्ठा सौमं सोमेन वै शुभम् शुक्रे च श्रेष्ठा अश्विनी मङ्गले शुभा एतेषु सिद्धियोगा वै सर्वदोषविनाशनाः भार्गवे भरणी चैव सोमे चित्रा वृषध्वज भौमे चैवोत्तरा शाढ धनिष्ठा जबुधे हर गुरौ सदभिषारुद्र शुक्रे वैरोहिणी तथा शनौ शम्भो विषयोगा प्रकीर्तिताः पुष्यपुनर्वसुश्चैव दीचित्रया सह श्रवणं च धनिष्ठा जहस्ताश्वनी मृगास्तथा कुर्याश्चायां तथा आश्लेषाकृत्तिका मरणप्रदाः इति श्रीगारूढे आचारकाण्डे ज्योतिश्शास्त्रे नक्षत्र तद्देवतादग्धयोगादिनिरूपणम् नामैकोनषष्टितमोऽध्यायः ओम् गरुडपुराणम् आचारकाण्डम् हरिरुवाजा षडादित्ये दशज्ञेया सोमे पञ्चदश स्मृताः अष्टा वङ्गारके चैव बुद्धै सप्तदश स्मृताः शनैश्चरे दशज्ञेया गुरोरेकोनविंशतिः राह्वोर्द्वादशवर्षाणि एकविंशतिर्भार्गवे रवेर्दशा दुःखदास्यादुद्वेगनृपना शकृत विभूदिदा सोमदशा सुखमिष्ठान्नदा तथा दुःखप्रदा कुचदशा राज्यादेश्याद्विनाशिनी दिव्यस्त्री बुधदशा राज्यदा कोशवृद्धिदा शनेर्दशा राज्यनाश बन्धु दुःखकरी भवेद गुरोर्दशा राज्यदास्य सुखधर्मादिदायिनी राहोर्दशा राज्यनाशव्याधिदा दुःखदा भवेद शुक्रदशाराज्यस्त्री लाभदा भवेद मेष अङ्गारकक्षेत्रं वृषशुक्रस्य कीर्तितः मिथुनस्य बुधोज्ञयसोमकर्कटकस्य च सूर्यक्षेत्रं भवेत् सिंहकन्याक्षेत्रं बुधस्य च भार्गवस्य तुलाक्षेत्रं वृच्चिकोङ्गारकस्य च धनुःसुर गुरोश्चैव शनेर्मकरकुम्भकौ मीनः सुरगुरोश्चैव ग्रहक्षेत्रम् प्रकीर्तितम् तत्र पूवाषाढाद्वयम् भवेद द्वि राषाढः विष्णुस्वपिति कर्कटे अश्विनी रेवती चित्राधनिष्ठा मृगाहिकपिमार्जारश्वानः सूकरपक्षिणः न कुलो मूषकश्चैव यात्रायां दक्षिणे शुभ्रः विप्रकन्या शिवा येषां शङ्खभेरी वसुन्धराः वेणुस्त्रीपूर्णकुम्भाश्च यात्रायां दर्शनम् शुभम् जम्बूकोष्ट्रखराद्याश्च यात्रायां वामके शुभाः कार्पासौषधितैलम् च पक्वाङ्गारभुजङ्गमाः मुक्तकेशीरकृदमाल्य नग्नाद्यशुभमीक्षितम् इक्कायलक्षणं वक्ष्ये लभत्पूर्वे आग्नेये शोक सन्तापौ दक्षिणे हानिमाप्नुयाद नैरृत्यशोकसन्तापौ मिष्टान्नं चैव पश्चिमे अर्धं प्राप्नोति वायव्ये उत्तरे कलहो भवद ईशाने मरणं प्रोक्तं हिक्कायाश्च फलाफलं विलिख्यरविचक्रं तुभस्करो नरसन्निभः यस्मिन् वृक्षे वसद्भानु तदान्दित्रीणि मस्तके त्रयम् वक्त्रे पदातव्यमेकैकम् स्कन्धयोर्न्यसेद एकैकम् बाहुयुग्मे दु एकैकम् हस्तयोर्द्वयोः हृदये पञ्च वृक्षाणि एकम् नाभौ व्रदापयेद वृक्षमेकम् न्यसेद्गुह्ये एकैकं जानुके न्यसेद नक्षत्राणि च शेषाणि रविपादे नियोजयेद चरणस्थेन वृक्षेण अल्पायुर्जायते नरः विदशे गमनं जानौ गुह्यस्थे परदारवान् नाभिस्तेनाल्पसन्धुष्टो हृत्स्थेन स्यान्महेश्वरः पाणिस्तेन भवे चौरस्थानभ्रष्टो भवेद्धजे स्कन्धस्थिते धनपदिर्मुखे मिष्ठान्नमाप्नुयाद मस्तके वदृवस्त्रम् स्यान्नक्षत्रम् यदि स्थितम् महापुराणे आचारकाण्डे ज्योतिश्शास्त्रे ग्रहदशादिनिरूपणम् नाम षष्टितमोऽध्यायः ओम्